ब्रह्माण्डपुराणं मध्यभागम् अध्यायं फोर्टि एय्त् सगरोपाख्यानं जैमिनिरुवाच गदे तस्मिन्मुनिवरे सगरो राजसत्तमः अयोध्यायामधिवसन् पालया मेदिनीम् सर्वसम्पद्गणोपेदसर्वधर्मार्थतत्त्वविद वयसैव स बालोऽभूत्कर्मणा वृद्धसम्मदः तथापि न दि वा भुक्ते शेदेवा निशिसं स्मरन् हृदयो निःश्वसित्युष्णमुद्विग्नहृदयोनिशम् श्रुत्वा राजा स्वराज्यं निजगुरुमवजित्यारिभित्सङ्गृहीतं मात्रा सार्धं प्रयान्तं वनमधिगहनं स्वर्गदं तञ्च तस्मिन् शोकाविष्टसरोषं सकलरिपुकुलोचितये सत् प्रदिज्ञश्चक्रे सद्यः प्रतिज्ञां परिभवमनलं सोढुमिक्ष्वाकुवंश्यः स कदाचिन्महीपालकृतकौतुकमङ्कलः का रिपुं जेतुं मनश्चक्रे दिशश्च सकलाक्रमाद अनेकरथसाहस्रै सर्वद राजा निश्चक्राम गजश्वरथसैनिकसमृदो राजक्रम पुरोत्रोन्ह प्रतस्तेजबल नोत्प्भिस्तुंगैर्ना सोर्मी शाडंगिकेना मत्तैर सकुल सकुलगिरिकुले नैव नश्वेद भूमण्डलेन स्वेदच्छत्र ध्वजौखैरपि शशिसुकरादकेनैव सार्थम् तस्याग्रे सरसैन्ययूथचरणप्रक्षुण्ण शैलोच्चयक्षोदापूरितनिम्नभागमवनी पालस्य सम्यास्यतः संयास्यतः प्रत्येकं चतुरङ्गसैन्यनिकरप्रक्षोदसम्भुदभूरेणुप्रावृतिरुत्स्थलीसमभवत् भूमिस्तु तत्रानिश्यम् निघ्नन्तृप्ताननेकान् द्वीपतुरकरधव्यूह सम्भिन्नवीरान् सद्य शोभां दधानो सुरनिकरचमूर्निघ्नधश्चन्द्रमौलिः दूरादेवाभिशंसन्नरि नगरनिरो ेषु कर्माभिषङ्गे तेषां शीघ्रापयानक्षणमभिदिशति दि प्राणिधैर्यं विधत्ते विजिगीषुर्दिशो राजा राज्ञो यस्याभियास्यति विषयं स नृपस्तस्य सद्यप्रणतिमेष्यति विजित्य नृपदीन् सर्वाज् कृत्वा च स्वपदानुगान् सङ्केतगाभिनकांश्चित् कृत्वा राज्येऽन्यवर्तत एवं दक्षिणाभिमुखो नृपः स्मरन् पूर्वकृतं वैरं हैहयानभ्यवर्तत ततस्तस्य नृपैः समग्र समग्ररथकुञ्जरैः बभूव हैहयैर्वीर्यैः है सङ्ग्रामो रोमहर्षणः राज्ञा यत्र सहस्राणि सबलानि महाघवे निजखानमहाबाहुत्संक्रुद्धकोसलेश्वरः जित्वा हैहय है भूपालान् हङ्क्त्वा दग्ध्वा च तत्पुरीम् निःशेषशून्या मगरोद्वैरान्तकरणो नृपः समग्रबलसम्मर्धप्रमृष्टाशेषभूतलः हैहयानामशेषं द्विचक्रे राज्यं रजः समं राज्यं पुरीं चापहायभ्रष्टैश्वर्या जखान सानुगान मत्तः रजानोहूद्रवंतमृत नृपस्ता्रवमानीपति सानुगान्मत्त प्रजाक्रोध सक्रोध सगर सक्रोधसगरसमिह मुमोचास्त्रं महारौद्रं भार्गवं रिबुभीषणम् तेनोत्सृष्टादिरौद्रत्रिभुवनभयदप्रस्फुरद्भार्गवास्त्रज्वालाद्दह्यमाना वशतनुततयस्ते नृपासाद्य एव वायु अस्त्रावृत्तधूमोद्गमपटलतमो मुष्टा मुष्टदृष्टिप्रसाराभ्रेमुर्भूपृष्ठलोढद् बहुलतमरुजो गूढमात्रा मुहूर्तम् आग्नेयास्त्रप्रतापप्रतिहतगदयो दृष्टमार्गाः समन्ताद्भूपाला नष्टसङ्खाः परवशतनमो व्याकुलीभूतचित्ताः भीदात्सन्त्युक्तवस्त्रा युधकवचविभूषादिका मुक्तकेशा विस्पष्टोन्मत्तवान् भृशतरमनुकुर्वग्रदशाणाम् विजित्य हैहयान् है सर्वान् समरेत्सरो बली संक्षुब्धसागराकारकाम्भोजानभ्यवर्तत नानावादित्रघोषागतपटहर वा कर्णनध्वस्तधैर्याः सद्यः सन्ध्यक्तराज्यस्वबल पुरपुरं पुरपुरन्ध्रीसमूहाविमूढाः काम्बोजास्तालजङ्काशयवनकिरातादयः सागमे दे भ्रेमुर्भूर्यस्त्रभीत्या दिशि दिशि रिपवो यस्य पूर्वापराधाः भीदास्तस्य नरेश्वरस्य रिपवः प्रदा पानलज्वालामुष्टदृशो विसृज्य वसदिं राज्यं च पुत्रादिभिः द्विट्सैन्यै समभिदृदावनभुवं सम्प्राप्य तत्रापि ते स्तैमित्यं गिरिगुहा सूक्तोद्धितेन द्विषः तालजङ्कान्निहत्या जौ राजास बलवाहनान् क्रमेण नाशयामास तद्राज्यमरिघर्षणः तदोयवनकाम्बोजकिरातादीननेकषः निजखान रुषा विष्टः पल्हवान् पारदानपि हन्यमानास्तु ते सर्वे राजानस्तेन संयुगे दुद्रुवुसङ्घर्षोऽभिधा हतशिष्टाः समन्ततः युष्माभिर्यस्य राज्यं बहुभिरपहृदं तस्य पुत्रोऽधुनाहं हन्तुं वः सप्रतिज्ञं प्रसभमुपगतो वैरनिर्यातनैषी इत्युच्च शैश्रावयाणो युधि निजजरिदं वैरिभिर्नागवीर्यः क्षत्रैर्विध्वंसितेजास्सगरनरपधिस्मारयामासभूपः तं दृष्ट्वा राजवर्यं सकलरिपुकुलप्रक्षयोपातरीक्षं भीता स्त्रीबालपूर्वं शरणमभिययुस्वासु संरक्षणाय इक्ष्वाकूणां वसिष्ठं कुलगुरुमभिधसप्तराज्ञां कलेषु प्रख्याताः सम्प्रसूदा नृपवर परदाः पल्हवाद्याः वसिष्ठमाश्रमो पान्दे वत्सन्तमृषिभिर्वृधम् उपगम्या ब्रुवन् सर्वे कृताञ्जलि पुडा नृपाः शरणं भं वनो ब्रह्मन्नार्तानामभयैषिणां सगरास्त्राग्निर्दग्धशरीराणां मुमूर्षदाम् सहन्ध्यसमानशेषेण वैरान्तकरणोन्मुखः तस्माद्भयाद्धिनिष्क्रान्ता वयं जीवितकाङ्क्षिणः विभिन्नराज्यभोगर्धिस्वदारापत्य बान्धवाः केवलं प्राणरक्षार्थं त्वां त्वयं शरणं गदः नह्यन्योऽस्ति पुमाल्लोके सौहृदेन बलेन वा यस्तं निवर्तयित्वास्मान् पालयेन्महदोभयाद त्वं किलार्कान्वयभुवां राज्ञां कुलगुरुर्व्रतः तद्वं सपूर्वजैर्भूपैस्त्वदप्रभावश्च तादृशः तेनायं सगरोऽप्यद्य गुरुगौरवयन्त्रितः भवन्निदेश्यं नात्येति वेलामिव महो दधिः त्वं नः सुहृत्पितामादालोकानां च गुरुर्विभो तस्मादस्मान्महाभागपरित्रादुं त्वमर्हसि जैमिनिरुवच इति तेषां वचश्रुत्वावशिष्टो भगवान् ऋषिः शनैर्विलोकयामास शरणं समुपागदान् वृद्धस्त्रीबालभूयिष्ठान् हद शेषान्नृपान्वयान् भगवान् त्वदप्यद्भगवान् सर्वभूतानुकम्पकः चिरं निरूप्य मनसा तान्विलोक्य च सादरम् उज्जीवयञ्चनैर्वाच मा भैष्टेधिमहामतिः अथा वो चन्महाभागकृपया परयान्वितः समये स्थापयामास राज्ञस्ताञ्जीवितार्थिनः भूपव्याकोपदग्धं नृपकुलविहिताशेष धर्मादभेदं कृत्वा तेषाम् वसिष्ठः समयमवनिपालप्रतिज्ञानिवृत्यै गत्वा तं राजवर्यं स्वयमथशनकै सान्त्वयित्वा यथावत् स प्राणानामरीणामपगमनविधावभ्यनुज्ञां ययाचे सक्रोधोऽपि महीपतिर्गुर्वचः संभावयं स्था नरीन्धर्मस्य स्वकुलोचितस्य च तथा वेषस्य सन्ध्यागतः श्रौध स्मार्तविभिन्नकर्मनिरतान् विप्रैश्च दूलोञ्छितान् सासून् केवलमत्यजन्मृदसमानेकैकश्यः पार्थिवान् अर्धमुण्ठाच्छखांश्चक्रे पल्हवान् श्मश्रुधारिणः यवनान्विकदश्मश्रून्काम्बोजांश्चम्भुकान्वितान् एवं विरूपान्यांश्च स चकारनृपान्वयान् वेदोक्तकर्मनिर्मुक्तान्विप्रैश्च परिवर्जितान् कृत्वा संस्थाप्यसमये जीवतस्तान्व्यसर्जयद ततस्ते रिपवस्तस्य त्यक्तस्वाचारलक्षणाः व्रातत्यां समनुप्राप्ताः सर्ववर्णविनिन्दिताः धिकृदा सतदं सर्वे नृशंसा निरपत्रपाः क्रूराश्च शङ्खसो लोके बभूवुर्म्लेच्छजादयः मुक्तास्तेनाधराज्ञा शगयवनगिरादयः सद्य एव त्यक्तस्वाचार्यवेषा गिरिगहनगुहाद्याशया सम्बभूवुः एता अद्यापि जादयोः सत्प्रवृत्या वर्तन्ते दुष्टचेष्टा जगति नरपदे पालयन्तः प्रतिज्ञा इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सकरोपाख्याने सगरप्रतिज्ञापालनं नामाष्टाचत्वारिंशत्तमोऽध्यायः ओम्